श्रीहरये नमः अतत्रयोविंशोऽध्यायः मैत्रेय उवाच पितृभ्यां प्रस्थिते सा द्वीपदिमिङ्गितकोविधा नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुं विश्रम्भेण आत्मशौचेन गौरवेण दमेन च शुश्रूषया सौहृदेन वाचा मधुरया च विसृज्य कामं दम्भं च द्वेषं लोभमगम्मधम् अप्रमदोद्यथा नित्यं तेजीयां जीयां सम्मदोक्षयत् सैवै देवर्षिवर्यस्तां मानवीं समनुव्रता दैवाद्गरीयसपत्यो आसानां महाशिषः कालेन भूयसा क्षा मां प्रेम गत गत या प्रेमगद्गतया वाचा पीडितकृपया ब्रवीत् कर्तम उवाच तुष्टोऽहमद्य तव मानविमानधायाः शुश्रूषा परमया परया च भक्त्या यो देहि नामयमतीव सुह्रस्वदेहो नावेशित समुचितक्षपितुं मदर्ते ये मे स्वधर्मनिरतस्य तपः विद्यात्मयोगविजिता भगवत्प्रसादाः तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितरां य अन्ये पुनर्भगवतो ब्रुवुद्विजृम्भ विप्रंसि विप्रंसितार्थरचना रचना, रचना किमुरो क्रमस्य सिद्धासि पुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्या नरैर्दुरधिकान् रभवे क्रियाभेर्येवं ब्रुवाणम् अबला किलयोकमाया विद्याविसक्षणम् अवेश्य गतातिरासीत् प्रणय विक्वलया गिरेशद् व्रेटावलोकविलसत् हसिता ननाः ते राद्धं पदद्विचौ वृषैतदमोघयोग मायाधिपे त्वयि विभो तद वै मे पर्थः यस्तेभ्यधायि समयक्सकृदङ्गसङ्गो भूयाद्घरीयसि गुणः मुपशिक्षयथोपदेशं येनै क्षमे कर्तितोऽधिरिरं स यात्मा सिद्ध्येत ते कृतमनो भवदर्शिताय दीनस्तधीशभवनं सदृशं विचक्ष्व मैत्रेय प्रियाया प्रियमन प्रियमन् योगमास्थितः मास्थितः विमानं कामघं क्षतस्तर्ह्ये वा विरचिक विमानं कामब कामघं क्षतस्तर्हे वा सर्वकामधुघं दिव्यं सर्वरत्नसमन्वितं सर्वत्युपच सर्वत्युपचयो धर्गं भैरुपस्कृतं। दिव्योपकरणो भेदं सर्वकालसुखावहं पट्टिघाभिपथाभिर्विचित्राभिरलङ्कृतं स्रग्भिर्विचित्रमाल्याभिर्मञ्जूषिझच्छडङ्ग्रिभिः धुकूलक्षौमकौसेयैर्नानावस्त्रैर्विराजितम् उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् क्षिप्तैकसिभुभिः कान्तं पर्यङ्गव्यजनासनैः तत्तत्र विनिक्षिप्त नानासल् नानाशिल्पोपशोभितं महामरगतस्तल्याज्योष्ठं वितृमवेदिभेर् ुवितृमधेहल्यापाधं वज्रकपाटव शिखरेषु गिन्द्रनीलेषु हे मघुं हे मगुं भै अतिश्रितम् चक्षुष्मत्पद्मरागग पद्मरागार्घ्यैर्वज्रभिद्दिषु निर्मितैः ज्योष्ठं विचित्रवैतानैर्महार्हैर्हेमधो तोरणैः हंस पार्वतव्रातैस्तत्तत्र निकूजितं कृत्रिमान् मन्यमानैः स्वानधिहृ स्वानधिरुह्याधिरुह्य च विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः यथोपजोषं रचितेर्विश्वमापनमिव आत्मनः ये दृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा सर्वभूता स याभिज्ञां प्र प्रावोचत् कथ प्रावोचत्कर्दमस्वयं निभञ् निमज्जा निमज्जास्मिन्ह्र निमज्जास्मिन्ह्रदे भीरो विमानमिधमारुह इतं शुक्लकृतं तीर्थम् आसीषां व्यापकं सा तद्भर्तुसमाधायव चक्कुबलये क्षणा सा जम्बिप्रतीवासो वेणिभूतांश्च मूर्धजान् अंगं च मलभङ्केन संचन्तं शु शबलस्तनम् आविवे आविवेश सरस्वत्या शरः शिव जलाशयं शान्तस्सरसिवे सदानिधसकन्यकाः सर्वा किशोरवयसोदर्शोत्पलघन्तयः तां दृष्ट्वा त्वां दृष्ट्वा सकसोत्थाय प्रोचु प्राग् भयं कर्म करी साति न करवाम किं स्नानेन तां महार्ह्येण स्नापयित्वा मनस्मिनी दुणाले निर्मले नोत्ने तदुरस्यै च मानधाः भूषणानि परार्त्यानि वरीयां सिद्ध्युमन्ति च अन्नं सर्वगुणोपेतं पानं शैवामृतासवम् अथ दर्श्ये स्वमात्मानां श्रीणं विरजाम्बरं विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितं स्नातं कृतशिरस्ता स्नातं कृतशिरस्नानं सर्वाभरणभूषितं निष्गग्रीवं वलयिनं कोचत् काञ्चन नूपुरं श्रोण्यो रत्यस्तया काञ्चया काञ्चन्या भगुरत्नया हारेण च महार्ह्येण रुचकेन च भूषितं सुदता स्लक्षणस्निग्धाभाग्येन चक्षुषा पद्मकोषस्पृतान् पद्मकोषस्पृतानीलैरलत् पद्मकोषस्पृतानीलैरलकैश्चलसन्मुखम् <coughs> यथा सस्मारऋषभं ऋषीणां दगितं पतिं तत्र चास्ते सकस्त्रिबेर्यत्रास्ते स प्रजापतिः भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तथा निसां यतद्योगतिं संशयं प्रत्यथा सतां कृतमलस्नानां विभ्राजन्तीम् अपूर्ववत् आत्मनोऽप्रतीं रूपं संवीतरुचिरस्तनीं विद्याधरीसहस्रेण सेव्यमानं सुवाससं जातभावो विमानं तथा रोकयत् अमित्रहन् जातभावो विमानं तदारोहयत् अमित् हरन् अमित्रहन् तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो विद्यातरीर्विद्यातरिरुपश्चिर्नवपुर्विमाने भभ्राज उत्कचकुमुद्गणवानपिश्च तराभिरावृतयि वोढुपतिर्नभस्तः तेन ते नाष्टलोकपविहारकुलाचलेन्द्र द्रोणीस्वनङ्गसगमारुतसौभगासु सिद्धैर्नुतोद्युतिनिपातशिवस्वनासु रेमे चिरं धनतवल्ललनावरूधिये वैश्रम्भके सुरसने नन्दने पुष्पभद्रके मानसे चैत्ररत्ये च सरेमनामया रतः प्राजिष्णुनाभिमानने प्राजिष्णुनाभिमानेन कामघेन महीयसा वै वैमानिकानत्यचेत शरन्लोकान्यतानिलहा किन्धुराबाधनं तेषां पुंसामुद्धामचेतसां यैराश्रितस्तीर्थपदश्चरणो व्यसनाद्ययः प्रेक्षे प्रेक्षयित्वा भुवो गोळं पन्त्ययावान् स्वस् महायोगे स्वास्व स्वाश्रमायज्ञवर्तता विभजनवता विभज्जनवधात्मानं मानवीं सुरतोत्सुकां रामां निरमयन् रे वर्षभूकान्मुहूर्तभ तस्मिन् विमानवुत्कृष्टां सय्यां रतिकरीं श्रुतां न चाबुध्यतत्थं कालम् पद्यापीश्येन सङ्गता एवं योगानुभावेन दम्भत्यो रममाणयोः सतं व्यधीयो शरदः कामलालसयोर्मनः तस्यामाधत्तरेतस्तां भावयन्नात्मनात्मवेत् नोदाविधाय रूपं स्वं सर्वसङ्कल्भविद्विभुः अतः सासु अत सासुषे अत सा प्रजाः सर्वास्ताश्चारु सङ् पतिंसा प्रवर्जिष्यन्तं तथा लक्ष्यो सती सती स्मयमाना विल स्वयमाना विक्लवेन हृदयेन विधूयता लिखन्त्यधोमुखी भूमिं पधानकमणिश्रिया उवाच ललितां वाचं निरुद्याश्रुक् निरुद्याश्रुकलां सनैः देवहूद्यु देवहूदिरुवाच सर्वं तद्भगवान् मह्यम् उपोवाक प्रतिश्रुतम् अथापि मे प्रपन्नाय अभयं धातुमर्हसे ब्रह्मन् दुहितृभिस्तुभ्यं विमृज्ञापतयः समाह कश्चित्स्यान्मे विशोकाय त्वये प्रव्रजिते एतावताल एतावतालं कालेन व्यधिक्रान्तेन मे प्रभो इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वम प्रसङ्गस्त्वयि मे कृतः अजानन्त्या परं भावं तथापि अश्व तथापि अश्वत्त्वभाय मे सङ्गोयसंश्रुतेर्हेतुरस् हे हेतुरः सत्सु विहितो धिया स सा एव साधुशो कृतो निःसङ्गत्वाय कल्पते नेहयत्कर्मधर्माय न ने विरागाय कल्पते न तीर्थ न जीवन्नभिमृतो हि सहा जीवन्नपिमृतो हि सहा साहं भगवतो नूनं वञ्चिता माया दृष्टं यत्त्वां विमुक्तिधं प्राप्य न मुमुक्षेयबन्धनात् इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापिलेयो कापिलेयो यो भाग्यनः कापिलो कापिले यो भाग्याने कापिले यो भाग्याने सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहराजिके जय